हरि <Sansimitation> श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे एकोनशत तमः सर्गः श्रीराम रावणयोर्युद्धम् महोदय महापार्श्वो हतो दृष्ट्वा स रावणः तस्मिन् च नियते वीरे विरूपाक्षे महाबले आविवेशे महान् क्रोधो रावणम् तु महामृदे सूतम् संजोदयामास वाक्यम् छेदम् उवाचहे नेतानाम् ममात्यानाम् वृद्धस्य नगरस्य च दुःखम् एवापनेष्यामि अथवा तौ रामलक्ष्मणौ रामवृक्षम् रणेहन्मि सीता पुष्पफलप्रदम् प्रशाखाय्यस्य सुग्रीवो जाम्बवान् कुमुदोनलः द्विविधश्चैव मन्दैश्च अङ्गलोगन्धमादनः हनुमाश्च सुषेणश्च सर्वे च हरियूथपः सदिशो दशघोषेण रथश्चास्ति रथो महा वादयन्त्रययो तूर्णं राघवं चाभ्यधावत् पूरिता तेन शब्देन गिरी संच गिरी संचचाई सर्वा त्रस्त सिंह मृगा तमसम सुमहां चास्त्र सुधारुण निर्दाह कपीं सर्वान्े प्रपेतु सामत पात रजो भूमौ तैर्भ संप्रधावित तै, नही तय तुम चेकु निर्मितं ब्रह्मणा निर्मितम् स्वयम् चान्यनेकान्यनेकानि रावणश्चरोत्तमये दृष्ट्वा भग्नानि शतशु राघवे पर्यवस्थितः ततो राक्षसशादू विज्राव्य हरिवाहिनीम् हरिवाहिनिम् ददर्श ततो रामं तिष्ठन्तम् अपराजितम् लक्ष्मणेन सह विष्णूना वासमं यथा आलिखन्तम् इवाकाशम् अवष्टभ्य मह धनुः पद्मपत्र विशालाक्षम् दीर्घ बाहु अरिन्दमम् महतेजा सौमित्री सहितो बली वानराश्चरणे भग्ना आपतन्तं च रावणम् समीक्ष्य राघवोरुष्टो मध्ये जग्राहकार्मुकम् विस्फोरयितुमारेभि ततः स धनुरुत्तमम् महावेगम् महानादम् निर्भिन्धन्निव मेदिनीम् रावणस्य च बाणो भै राम विस्फोरितेन च शब्देन राक्षसातेन पेतु च शतशस्तदा तयो शरः पथम् प्राप्य रावणो राजपुत्रयोः स बभो च यथा राहु समीपे शशि सूर्ययोः वानराश्च रणे भग्नान् आपतन्तं च रावणम् समीक्ष्य राघवोरुष्टो मध्ये जग्राहकार्मुकम् विस्फारयितुमारेभे तथ स धनुत्तमम् महावेगम् महानादम् निर्विन्दन्निव मेदिनीम् रावणस्य च बाणो भै रामविस्फारितेन च शब्देन राक्षसासेन पेतुश्च शतशस्तदा तयोशरपथम् प्राप्य रावणो राजपुत्रयोः स बभो च यथा राहु समीपे शशिसूर्ययो तमिच्छन् प्रथमम् योद्धुम् लक्ष्मणो निशितैषरे ममोच धनुरा यम्य शरान्नग्नि शिखोपमान् तन्मुक्तमात्रा नाकाशी लक्ष्मणेन धनुष्मता बाणान् बाण महातेजा रावणः प्रत्यवारयत् एकम् एकेन बाणेन त्रिभिः त्रिन् दश भेर्दश लक्ष्मणश्च प्रचिच्छेत् दर्शयन् पाणिराघवम् अभ्यर्थिक्रम्य सौमित्रीम् रावण समितिञ्जयः आससादरणे रामम् रामं शैलम् शैलं परम् स्वराघवम् समासाध्य क्रोधसं रक्तलोचनः प्रसृज शरवर्षाणि रावणो राक्षसेश्वरः शरधाराततो रामो रावणस्य दनुश्चुतः दृष्ट्वैवापतिता शीरम् भल्लाञ्जग्राह सत्वरम् तान् शरोघान्ततो भल्लैः तीक्ष्णे चिच्छेद राघव दीप्यमानान् महाघोरान् शरानाशीविशोपमान् राघवो रावणं तूर्णम् रावणो राघवं तथा अन्योन्यं विविधे तीक्ष्णैः शरभर्ष एव <Sess> चेरतुश्च चरम् चित्रम् मण्डलं सव्यदक्षिणम् बाणवैगात्मुत्क्षिप्तौ अन्योन्यम् अपराजितौ तयोर्भूतानि वित्रेषु युगपत् सम्प्रयुध्यतो रज्रयो सायकमुचौ इमान्तकनिकाषयोः सततं विविधै बाणै बभूव गगनं तदा घन वापय विद्युन्लासमकवा क्षेत्रमेंका काशम बहुवशरवृष्टि महागे सुतृष्णाग्री रुद्रपत्रे सवाजित शराध कारम तम तपने चापी महामेघोत्थित तयोरभु युद्धम अन्यावध कांक्षिण अनासाध्यम अचित चुत्रवास वोरिव उ परमेशवासौ उुद्ध विचारदौ उभौस्त्र विदा मुख्य उभो युद्ध विचेरु उन्न वज्रत तेना, तेना शम कूर्मयो वायुना विद्धा जग्मुसागरयोरिवो ततः संसक्तः रावणो लोक रावणः नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत रज्र चापप्रयुक्तां तां नीलोत्पलदलप्रभाम् चरता धारयद्रामो न व्यथामभ्यपद्यत अथ मन्त्रान् अपि जपन् रौद्रम् अस्त्रमुद्धीरयन् शरान्धूय समासा समादाय रामक्रोधः समन्वितः ममोच महातेजा चापमायम्यवीर्यवान् ताञ्चरान् राक्षसेन्द्राय शिक्षे पाच्छिन्न सायकः चै कवचे पतिताक्षरः अवध्ये राक्षसेन्द्रस्य न व्यथां जनयन्तर पुनरेवासतं रामो रथस्थं राक्षसाधिपम् ललाटे परमात्रेण सर्वात्र कुशलोऽभिनयत् तेभ्यः त्वा बाणरूपाणि पञ्चशीषैवो रगः क्वसन्तो विविशुर्भूमिम् रावण प्रतिकूलिता निते राघवशास्त्र रावण क्रोध मूर्छित आसमं सुमहां चकार सह सि व्याघ्र मुखा चापी कंकूक मुखानी दुर्धन मुखा चापी शुगा तथा इहा मृ मुखा चापी व्यादिता से पञ्चाश्यान् ले रिहानाश ससजय निश्चिताञ्चरान् शराखर मुखाचान्यान् वराह मुखसंश्रितान् श्वानय कुक्कुटवक्त्रां मकराशि विशाननान् एता चान्या च मायाभिः ससर्ज निश्चितासरान् रामं प्रति मा पेजा समाविष्टघुपुङ्गवहे स्यास्त्रं महोत्साहम् पावकम् पावकोपमः अग्निदीप्तमुखान् बाणान् तत्र सूर्यमुखानपि चन्द्रार्ध चन्द्रवक्त्रा च धूमकेतुमुखानपि ग्रह नक् च त्रवर्णाच मल्का मुखसंस्थितान् विद्युज्जीवोपमा चापि ससर्जर् विविधान् चलन् ते रावणश्च राघोरा राघवास्त्रसमाहतः विलयं जग्मुकाशे जघ्नुश्चैव सहस्र तदस्त्रं नेत्रं दृष्ट्वा रामेणाक्लिष्टकर्मणा वृष्टा नेदुस्ततः सर्वे कपय कामरूपिण सुग्रीवाभिमुखा वीरा सम्परीक्षिप्य राघवम् तत श्रे राणबाहु निशरथी महात्मा विनिदुश्चे मुदिता कपीश्वरा इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे एकोनशततम